तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः अष्टाशीतिसहस्राणि स्नातकागृहमेधिनः त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः दशान्यानि सहस्राणि नित्यम् तत्रान्नमुत्तमम् भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने कदलीमृगमोकानि कृष्णश्यामारुणानि च काम्बोजः प्राहिणोत् तस्मै परार्घ्यानपि गवाश्वस्य गजयोषिद्गवाश्वस्य सहस्रशः त्रिशतं चोष्ट्रवामीनाम् शतानि विचरन्त्युत राजन्याबलिमादाय समेता हि नृपक्षये पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते आहरन्क्रतु मुख्येऽस्मिन्कुन्ती पुत्राय भूरिशः न क्वचिद्धिमया तादृग्दृष्टपूर्वो न च श्रुतः यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः अपर्यन्तम् धनौघं तम् दृष्ट्वा शत्रोरहम् नृप शमम् नैवाभिगच्छामि चिन्तया नो विशाम्पते